इंद्रसेस्थमग तद व्यतीत विविधा स्वरावांक्षिप प्रवाहन इंद्रस्थगत पाथम्यगछ्जनादन स गृहे पितृवभ्रात्र धर्मराजन पूजि भीमेन च तनोपश्यत् स्वसारं प्रीतिमान् पितुः प्रीतः प्रीतेन सुहृदारेमे ससहितस्तदा अर्जुनेन यमभ्यां च गुरुवत्पर्युपासितः तं विश्रान्तं शुभे देशे क्षणिनं कल्पमच्युतम् धर्मराजः समागम्यज्ञापयत्स्वप्रयोजनम् प्रार्थितो राजसूयोमेन चासौ केवलेप्सया प्राप्यते येन तत्ते हि यस्मिन् सर्वम् सम्भवति यश्च सर्वत्र पूज्यते यश्च सर्वेश्वरो राजार विन्दती सुहृदः समेत्य मे तत्र मे निश्चिततमं तव कृष्णगिरा केचिद्धिसौहृदा देवान दोषं परिचक्षते स्वार्थहेतोस्ते वदन्त्युतमेवप्सन्ते केचिदात्मनि अद्धितम् एवं प्रायाश्च ृश्यन्ते त्वम् तु हेतूनतीत्यैतान् कामक्रोधौ व्युदस्य च परमम् यत्क्षमम् लोके यथावद्वक्तुमर्हसि इति श्रीमहाभारते सभापर्वणि राजसूयांभपर्वण वासुदेवागमनेध्याय